सम्भाषणसन्देशः टु तौसण्ड् फ़िफ़्टीन् मासस्य मासपत्रिका बालमोदिनी बालकः चोरः च लेखकः श्रीधरः कश्चन बालकः स्वस्य प्रकोष्ठे शयनं करोतिस्म, स्म तदवसरे कश्चन चोरः प्रकोष्ठस्य वातायनम् उद्घाट्य आगच्छत् बालकः चोरस्य आगमनं ज्ञात्वा अपृच्छत् भोः भवान् किमर्थम रात्रौ मम प्रकोष्ठस्य प्रवेशः कृतः भवता इति तदा चोरः अवदत् अहं कश्चन निर्दयः चोरः एतस्मिन् गृहे यानि वस्तूनि सन्ति तानि सर्वाण्यपि अहं चोरयामि इति बालकः अपृच्छत् चौर्यं न करणीयम् इति भवतः माता भवन्तं न बोधितवती किम् इति तत् क्रुद्धः चोरः प्रत्यवदत् अलं जल्पनेन चोरेण सह सम्भाषणं मा इति तव माता न उक्तवती किं तूष्णीं शयनं कुरु अहं सर्वाणि वस्तूनि शीघ्रमेव गृहीत्वा पलायनं करिष्यामि इति एवं कर्तुम् अहम् अवसरं न ददामि भवान् चौर्यं कर्तुम् इच्छति चेत् आदौ मां रज्ज्वा बध्नीयात् इति स्वधैर्यम् अवदत् बालकः तदा चोरः हसन् अये मूर्खबालक रज्ज्वा बन्धनं लीलकार्यं मम अहं क्षणाभ्यन्तरे <Ses> <Sess> एव त्वां बध्नामि इति उक्त्वा रज्जुम् उपयुज्य बालकम् अबध्नात् परन्तु बालकः क्षणाभ्यन्तरे एव बन्धनात् आत्मानम् अमोचयत् एतद्दृष्ट्वा चोरः आश्चर्यम् अनुभवन् पुनरेकवारं बालकम् अबध्नात् बालकः पुनरपि विना श्रमेण बन्धनात् आत्मानम् ततः बालकः परिहारस्वरेण अवदत् अयि भोः कीदृशः चोरः भवान् असहायकं माम् अपि दृढं बन्धुं नशक्तं शक्तं भवता अहं दर्शयिष्यामि कथं बन्धनं करणीयमिति इति उक्तवान् चोरह एतत अङ्ग्यकरोत् ततः बालकः रज्वा चोरस्य पादौ हस्तौ ग्रीवां च बद्ध्वा अवदत् इदानीं भवान् बन्धनात् विमोक्तुं न अर्हति इति चोरः बहुधा प्रयासम् अकरोत् परन्तु ग्रन्थीनां शिथिलीकरेण सः न शक्तः सः अवदत् इदानीं मया अवगतं कथं रज्वा बन्धनं करणीयम् इति शीघ्रमेव मां मुञ्च इति तदा बालकः अवदत् भोः अहं मूर्खः नास्मि मम पिता अचिरात एव अत्र आगमिष्यति सः आगत्य भवन्तम् आरक्षकालयं नेष्यति इति रज्जुभिः बन्धनं कर्मभिः बन्धनम् इव बालकः तैः बुद्धः न भवति कर्म बंधनेभ्य अस्म मुक्त भवित कथा समाप्ता। आत्मा